गर्गसंहित खण्डम् 10, अश्वमेधखण्डम् अध्यायम् ट्वेण्टि त्रि गर्ग उवाच अधसान्तीपनिं तत्र कृष्ण पौत्रोऽ ब्रविद्वजः स्मृत्वादु किञ्चित् सन्देहं गुरुं वृद्धश्रव इव अनिरुद्ध उवाच भगवन्ब्रूहि मे सारं येनानन्दे रमाम्यहम् विहाय चास्य जगदः सुखान्स्वप्नोपमान्मुने इतीरितोऽनिरुद्धेन राजन् सान्दीपनिर्मुनिः प्रत्याह प्रहसन्प्रीत्या कुमारः पृथुना यथा सान्दीपनिरुवाच आदिदेवस्त्वमेवासीत् श्रीहरेर्नाभिपङ्कजाद तस्मात्तवाग्रे लोकेश कथयिष्यामि किम् त्वहम् तथापि वर्णयिष्यामि राजंस्तद्वाक्यगौरवाद कल्याणार्थम् नराणाम् च सर्वेषाम् दीनचेदसाम् त्वया त्वया दृष्टं च यद्रास्तृणुष्व मुखान्मम कृष्णचन्द्रस्य पदयोः सारमस्ति हि सेवनम् ययोपूजनमात्रेण ध्रुवो ध्रुवपदम् ययौ प्रह्लादश्चाम्बरीषश्च गयश्चैव यदुस्तथा तस्मात्त्वमभिराजेन्द्र श्रीकृष्णस्य च सेवनम् सर्वेषां साररूपम् यन्मनःसा कुरु यत्नदः यूयम् लोके भूरिभाग श्रीकृष्णस्य च वंशजाः ज्ञादिसम्बन्धिनश्चैव जीवन्मुक्ता हरिप्रियाः के जिजानन्दिश्रीकृष्णम् तनयम् केऽपि भ्रातरम् पितरम् केऽपि मित्रम् च किम् कर्तव्यम् परम् च तैः अनिरुद्ध उवाच कर्ता चास्य जगद आदिरूपः सनातनः यस्मादासीत् पूर्वमिदम् तन्मे वर्णयविस्तराद केन केनापि केना रूपेण भगवान् जगदीश्वरः युगे युगे मुने कर्मम् करोतीति वदस्वनः सान्दीपनिरुवाच उत्पत्तिश्च उत्पदिश्च निरोधश्च यस्मादासीद्यदुद्वः स ईश्वरपरब्रह्म भगवानेक एव च युगे युगे भवन्त्येदे दक्षाद्या नृपसत्तमा राजन् कृष्णपरम् ब्रह्म यद सर्वमिदम् जगद जगच्च यो यत्र चेदम् यस्मिंश्च लयमेष्यदि तद्ब्रह्मपरमम् धाम सदसत् परमम् पदम् यस्य सर्वमभेदेन जगदेतच्चराचरम् स एव मूलप्रकृतिर्व्यक्ररूपी तस्मिन्नेव लयम् सर्वम् व्याधि तत्रैव तिष्ठति यदप्रधानपुरुषौ यदश्चैदश्चराचरम् कारणं सकलस्यास्य समे कृष्णप्रसीदतु चतुर्युगेऽप्यसौ विष्णुस्थितिव्यापारलक्षणः युगव्यवस्थाम् कुरुते यथा राजेन्द्रतशृणु कृते युगे परं ज्ञानम् कपिलादिस्वरूपधृक ददादि सर्वभूतात्मा सर्वभूतहितेरथः चक्रवर्तिस्वरूपेण त्रेदायामपि स प्रभुः दुष्टानाम् निग्रहम् कुर्वन् परिपादि जगत्त्रयम् वेदमेकं च दुर्भेदम् कृत्वा स शदधा विभुः करोति बहुलम् भूयो वेदव्यासस्वरूपधृक वेदांश्च वेदांश्चद्वापरेण्यस्य कले रन्धे पुनर्हरिः कल्किस्वरूपी दुर्वृत्तान् मार्गे स्थापयति प्रभुः ेवम् कृष्णो जगत् सर्वम् जगत्पादि करोति च हन्दिख्यान्तेष्वनन्दात्मा नान्यस्माद्व्यतिरेकदः नमोऽस्तु हरये तस्मै यस्माद्भिन्नमिदम् जगद ध्येयः स जगदामाद्यः जगदा सप्रसीदधु मे व्ययः तस्मान्नृपेन्द्रहरिपौत्रमनोमयम् च सर्वं विहाय जगदश्च सुखं च दुःखम् मोक्षप्रदम् सुरवरम् किल सर्वदम् त्वम् द्वारावधीनरपदिम् भज कृष्णचन्द्रम् इति कृष्णस्य हरेश्च वृत्तसारम् कथयदियाश्च शृणोदि भक्तियुक्तः स विमलमधिरेदिनात्ममोहम् भवति च संस्मरणेषु भक्तियोग्यः यदि श्रीगर्गसंहितायाम् हयमेधकण्ठे वैराग्यकथनम् नाम त्रयो अध्यायम् ट्वेण्टि गर्ग उवाच इति दम्वचनम् श्रुत्वा निरुद्धस्तु मुदान्वितः निवेश्य कृष्णपदयो स्वमनःप्राह तम् मुनिम् गदशत्रुश्च मे मोहस्त्वद्वाक्येनासिना विभो अद्य त्वम् गच्छ कृष्णस्य पुरीम् पुत्रेण संयुधः तस्य वाक्यम् समाकर्ण्य मुदा सान्दीपनिर्मुनिः कृष्णदत्तेन पुत्रेण रधस्तो द्वारकाम् रथस्तोद्वारकाम्ययौ सपुर्याम् रामकृष्णाभ्यामादरेण निवासिदः पूजिदो यादवै सर्वैर्भोजेन्द्रेण विधानदः अधप्रद्युम्नतनयश्यामकर्णम् महोज्वलम् स्वर्णशृङ्खलया बद्धे मुमोच विजयाय हयश्च शीघ्रम् प्रव्रजन् नृपेन्द्र यशो ब्रुवान् राजपुरे गतः सः यत्रानुशाल्वो नृपतिश्च राज्यम् शाल्वस्य भा शाल्वस्य भ्राता कुरुते च नित्यम् तत्र वैतुरगम् प्राप्तमनुशाल्वो गृहीत्वा वाचयामास तत्पत्रम् च प्रहर्षिदः अभिप्रायम् निरीक्ष्यैव तिरश्चीनेन चक्षुषा स्वसैनिकान् प्रत्युवाच ऋषा ठ्रस्फुरिदाधरः दिष्ट्या दिष्ट्या शत्रवो मे सर्वे चात्रसमागताः खादयिष्यामि तान् भ्राता जमारिदः यत्युक्त्वा सेनया युक्तो निश्चक्राम पुराद्बहिः अक्षौहिणीभिर्दशभिस्त्रिणीकृत्य तु यादवान् तथैव वृष्णयः सर्वे दृष्ट्वा सेनाम् समागताम् बाणवर्षाम् प्रमुं मुमुचुस्ते शरांश्च वै उभयो सेनयोर्युद्धं तदः समभवन्मृधे गड्गैर्बाणैर्गदाभिश्च शक्रिभिर्भिन्दिपालकैः पलायमानां स्वां सेनामनुशाल्वो महाबलः वारयित्वा नदन्युद्धे चा जगामरधेन वै मागदम् विलोक्यादीप्तिमान् कृष्णनन्दनः तेन सार्धं ऋणम् कर्तुम् तदैव सम्मुखोऽ भवत दीप्तिमन्दं ऋणे वीक्ष्य धनुषा दशभिः शरैः तदाडामर्षिदसोऽपि द्वीपम् द्वीपी नखैरिव ताडितः तैः शरौकैस्तु रुधिरोक्षिदबाहुना नीत्वा शरासनम् सद्यो बाणाञ्जग्राहरोषदः निधाय किलकोदण्डे दशबाणान्मुमोचः ते शरास्तच्छरीरम् वै भित्त्वा राजन् बहिर्गताः यथा तृणगृहम् राजन् सहसा पन्नगाशनाः तैर्बाणैर्निषदो युद्धेऽनुशाल्वो मूर्च्छितोऽभवत् तत्रागत्य हरेः पुत्रो भानुः सर्वान् रिपूञ्छरैः नीहाराभ्रान् भानुरिव खिन्नभिन्नां चकारः तदश्च दुद्रुवुः सर्वेऽनुशाल्वस्य दुःसैनिकाः तदैव तस्य मन्त्री वै तामरोषदः। तामरोषधः शक्रिया जखानसमरे सत्यभामात्मजं नृप भानोश्च हृदयं भित्त्वा सा विवेश महीतले सचापि मूर्चिदो मूर्छितो निपपादथाद्रणे स एवम् कौतुकम् वीक्ष्य साम्बस्तत्र रुषाज्वलन् शीघ्रम् गृहीत्वा कोदण्डमाजगामरथेन वै प्रचण्डस्य रथम् साम्बसतुरङ्गम् ससारथिम् सध्वजं शदबाणैश्च सर्वम् चूर्णी रथे भग्ने गदाम् नीत्वा प्रचण्डो रणदुर्मदः आ जगामरिपुं हन्तुम् पदङ्ग इव पावकम् आगतं तं विलोक्या चन्द्रार्काकारवर्चसा शरेणैकेन साम्बस्तु जहार तच्छिरो मृधे हाहाकारस्तदैवासीत्तत्सेनयाम् नृपेश्वर अधोद्धितोऽनुशाल्वस्तु मूर्च्छाम् त्यक्त्वा मुहूर्ततः ददर्शमन्त्रिणम् तत्र साम्बेन निषदम् मृधेर् निरीक्ष्य रथमारुह्य धन्वीखी च दंशितः शिरीमुखैश्चतुर्भिश्च साम्बस्य चतुरोहयान् द्वाभ्याम् केतुम् त्रिभिः शरासनं पञ्चभिश्च सरैर्यानं त्रिंशद्भिश्च समरे जखानसमरे नृपः सखिन्नधन्वा विरधो हदाश्वो हदसारथिः रथम् चान्यम् समारुह्य रेजे जाम्भवदीसुतः तदो गृहीत्वा को दण्डं शतबाणैरमर्षिदः तदाडसरिपुं युद्धे सर्पं पक्षायैर्यथा विराड यानस्तस्यापि भग्नो भूतु रङ्घा पञ्चतां गदाः सुदो मृत्युं युद्धेनु युद्धेऽनुशाल्वो मूर्चिदो भवद ततस्तत् सैनिकाः सर्वे गृध्रपक्षैः स्फुरत्प्रभैः आशीर्विषसमर्बाणैः साम्बम् जघ्नूरुषान्विदाः साम्बमे गम्रणे वीक्ष्य मधुकृष्णसुधो रुषा पारावदसमेनाभिहयेनागतवान्मृधे साकं साम्बेन तान् सर्वान् निस्तृंश्येन रिपून्खलान् प्रहरार्धेन राजेन्द्र मारयन् दृष्ट्वा स्वस्य सलिलेन शुचिर्भूत्वा हन्तुम् सर्वान् ब्रह्मास्त्रम् सम्दधेरोषाण्मयदैत्येन शिक्षितम् अजानंस्तस्य नाश्यम् च सम्प्राप्ते प्राणसङ्कटे तस्यापि दारुणम् तेजोत्रीम् लोकान् प्रदहन्महद चचारह्यन्तरिक्षे च द्वादशादित्यसन्निभम् तत्तेजः सा दुर्विषहेण सर्वे सन्दह्यमाना यदवश्च भीताः प्रद्युम्नि पार्श्वम् प्रययो ब्रुवन्तो रक्षस्वदुःखान् नृहरे महात्मन् तद कृत्वा भयम् राजन्वीरो रुक्मावती सुदः ब्रह्मास्त्रेण दुब्रह्मस्त्रम् जहारप्रधनेरुषा वन्यस्त्रम् सोऽपि चिक्षेप वस्निना पूरितम् नभः दह्यमाना जभूस्तत्र ज्वालाभिरिव काण्डवम् तदो निरुद्धो बलवान् वारुणास्त्रम् पुनर्दधे प्रचण्डमेकधाराभिर् ह्निश्चीदलताम् गदः मण्डूफा कोकिलाश्चैव मयूराः सारसादयः प्रत्यनन्दन् महामेखैर्वर्षाम् ज्ञात्वा पुनः पुनः ततोऽनुशाल्वो मायावीपवनास्त्रम् समादधे दुष्ट दृष्टा दुष्ट, दृष्टान् दुष्ट, दृष्ट्वानिरुद्धो युयुधे पर्वतास्त्रेण सर्वदः तदो भारसहस्राढ्यं नीत्वा सोऽपि गदां मृधे अनिरुद्धं शूरमणीं क्रुद्धो वचनमब्रवीद तत्सैन्ये नास्ति राजेन्द्र गदा यदि चास्ति तर्हि मह्यम् तम् तु शीघ्रम् प्रदर्शय इति तद्वाक्यमाकर्ण्य गदाधारी गदो महान् उवाच चाग्रदो भूत्वा निरुद्धस्य प्रपश्यतः अत्र वै बहवः सन्ति सर्वशास्त्रविशारदाः मानम् मा कुरु दैत्येन्द्रत्वमेकाकिरणोऽसि हि न मन्यस्य मद्वाक्यं मया साकं व्रणे सुर कुरु पूर्वम् गदा युद्धम् तदोन्यान् द्रष्टुमर्हसि इत्युक्त्वा सगदाम् नीत्वा लक्षभारमयीम् दृढाम् तथानुशाल्वम् जग्नेदु मूर्धनि वक्षस्थले नृप अनुशाल्वस्तु गदया जखानसमरे गदम् तदोऽन्योन्यम् गदाभ्याम् च जघ्नदुः क्रोधमूर्झितौ तदो गतः समुद्धाप्यानुशाल्वम् गगने क्षिपद् भ्रामयित्वा शतगुणम् निपपादमहीतले तदोऽनुशाल्व उद्धाय गृहीत्वा रोहिणी सुतम् भूमौ मर्दराजेन्द्र तदद्भुदमिवा भवद गदो गजं गृहीत्वैकमनुशाल्वोपरिचाक्षिपद तमायान्तं गजं नीत्वा चिक्षेपस बलानुजे जानुभिर्मुष्टिभिर्घोरैः प्रहारैस्तौ जघ्नदुः जा मर्दितौ तावुभौ मह्यां पदि ताव। मूर्चनाम मूर्सनाम् गतौ इति श्रीगर्गसंहितायाम् हयमेथण्डे राजपुरविजयो नाम चतुर्विंश्योऽध्यायः ओ